वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् रामानुजार्यमार्याणां चूडामणिमहन्निशम् सत्यं सत्यं पुनः सत्यम् इति राजो जगद्गुरुः स एव सर्वलोकानाम् उद्धर्ता नास्ति भगवन्तु अन् अन्तर्यामि उाडने उपनिषद् रहस्य एकपरिचिन महानुभू भगवद् रामानुजु पदकोडव शताब्द्रीपेरम्बूदूरु अवतरिचिन महापुरुषु जातिमतविवक्षा अगवद् अनुग्रहान्नि पदा अर्हुले प्रकटि आर्तिगल वारकी मन्त्रराजसारमु अूट इरवै संवत्सरमुपा निर्विराम श्रमचार् वीरि परोपकारपरायणत सन्तर्श भगवीरि यतिराजु अने पेतो संभाव मात्रमेव रामानुज अने पदानि उच्चरि वारकी सकल पुरुष अर्धमुख तान् लभिम्पचे अद्भुतम वराणि अनुग्रह अटि आ महत्तर नामोच्चारण मनमू चेयुग रङ्गार्युले महानुभूर भजयतिराज स्तोत्राणि इरबोतु वीणुलवि तत्वान्परच मात्रमे काक आशफलनी वेंट लभ्येयगल परम पवित्रमयेन स्तोत्रान्नि मनन्दरं कलसि गानि चेदं री गोन्तु कलपति Shulee Laham Bhajaya भारस्सिरसि किशोरः सुखयत् मठसत्रः तस्मिन् रुक्षे सति सकलत्रः Uh-huh. मेव वृणीः सदस्यं तच्चरणद्वयदास्यमुपास्यं तद् विपरीतं मतमपहास्यम् अजयति राजम् ami मुकस्थायति पतिसूक्तिः तस्य करस्था गुरवरवञ्च कचित्ताः भजयति राजम् भजयति राजम् भजयति भवमीनो भजयति राजम् अजयति भवमी ह पुरुषार्थं सकलोपायाधिकचरम अजयति राजम् अजयति राजम् अजयति राजम् भवभीरो अजयति राजम् अजयति राजम् अजयति राजम् भवभीरो अजयति राजम् अजयति राजम् अजयति राजम् भवभीर अजयति राजम् अजयति राजम् अजयति